तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरु द्वः बभूवुरनतिग्राह्या योषितश्छन्दतः किला प्रादात् स्त्रीणामप्रतिवारणे वरिण्यस्तत्र नार्यो हि यथेष्टं विचरन्त्युत वर्जयन्ति च राजानस्तत्पुरम् भरतर्षभा भयादग्नेर्महाराजा तदा प्रभृति सर्वदा सह धर्मात्मा सैन्यं दृष्ट्वा भयार्दितं परितमग्निनाराजन् नाकम्पतयथा चलः उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकन्ततः सह देव उवाच त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते मुखं त्वमसि देवानां यज्ञस्त्वमसि पावका पावनात् पावकश्चासि वहनाद्धव्यवाहनः वेदास्त्वदर्थं जातावै वै जातवेदास्ततोह्यसि चित्रभानुसुरेशश्च अनलस्त्वं विभावसो स्वर्गद्वारस्पृशश्चासि हुताशोज्वलनशिखि वैश्वानरस्त्वं पिङ्गेशः लवंगो भूरी तेजस कुमारुस्त रुद्रगर्भो हिरण्यकृत। अग्निदा मे तेजो वायु प्राण ददा मे पृथिवी बलमया शिव चाप दिश अपाङ्गर्भमः सत्वा जातवेद सुरेश्वर देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम् ऋषिभिर्ब्राह्मणैश्चैव नित्यं सुहृतयज्ञेषु सत्येन विपुनीहि मां धूमकेतुःशिखी च सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि एवं स्तुतोऽसि भगवन् प्रीतेन शुचिना मया तुष्टिं पुष्टिं श्रुतिं चैव प्रीतिं चाग्ने प्रयच्छ मे वैशम्पायन वाचा इत्येवं मन्त्रमग्नेयं पठन्यो जुहुया द्विभुम् रद्धिमान् सततं दान्तः सर्वपापैः प्रमुच्यते